असन् दशमोऽध्यायः धर्ममेलनं दिने सुचितस्या सु विस्तृतं धर्ममेलनं कोलम्बस् नाम कक्षायां विस्तृतायाम् अजायत श्रोतुं नानाविधान् धर्मान् अधिकृत्य प्रभाषणम् सस्थले स्थले भूता श्रोतारो बहुसङ्ख्यका भुवने विद्यमानानां सर्वधर्मानुयायिनां प्रातिनिध्यं वहन्तत्र वर्तते स्म जनव्रजः भारतादपि लङ्काया जना केचित् समागताः वक्तारो बुद्धजैनादिधर्माणां सन्त एव च पीतवर्णाभमुष्णीश मज्ज्वलं वेशभूषणं गौरारुण्मयं गात्रं रूपामाकर्षकं तथा स्वामिनः सर्वमेतत्तु सभाङ्गैरखिलैरपि अवेक्षितं यदा स्वामी वेदिकायामुपाविशत् एकैकप्रतिनिधिश्चापि एक समारेभे स्वभाषणं पूर्वमेव तु तत्तेन सञ्जीकृतम् असंशयम् ईदृशे मेलनेनैव स्वामिना भाषणं कृतम् तत्काल तत्कालभाषणार्थं स संविधानमपि करो। अध्यक्षेण यदा स्वामी भाषणाय निमन्त्रितः मञ्चभीत्या परं ब्रूयात् इत्येवासूचयत्तदा हृदयं तं पितं जिह्वा सुीभूता च बेतदा अतोऽहम् अक्षमा प्रोक्तुं प्रातःकालीन मेलने इत्येवं स्वामिना प्रोक्तं कदाचनततः ततः परं पराह्ं यावदेतस्माद् भाषणं स व्यलम्बयत् अन्ततो भाषणार्थं स वेदिकामध्यमागतः समं परिचर्य तस्य सभाध्यक्ष समाचरत् मनसा प्राणमत्स्वामी विद्यादेवीं सरस्वतीम् अग्निवत्तस्य वदनं तेजोमये अभूत्तरा अमेरिकाप्रदेशस्य सोदरी सोदरा सभावासिन आलोक्य तेन सम्बोधनं कृतम् उत्थितानि सपद्येव सभाङ्गानि सहस्रश उच्चस्वरेण सर्वेपि प्रशंसाम् अपि अकुर्वत हर्षसूचकनिःस्वानो ध्वनितो निमिषद्वयम् करतालस्वरो जातो नितरां कर्णभेदकः अत्याधुनिकदेशाय लोकस्य स्वामिनार्पितः पुराण अदेशस्य भारतस्य कृतज्ञता तस्य भाषणसारस्तु सार्वत्रिकसहिष्णुता यस्योदाहरणत्वेन निर्दिते स स्वभारतं व्याख्यातुं हिन्दुधर्मस्य श्रेष्ठां सहनशीलताम् उद्धृतानि च शास्त्रेभ्यो वाक्यानि स्वामिना तथा समुद्भूय विभिन्नेभ्य श्रोतेभ्यो निम्नगायथा जलधौ मिलिताः सन्ति तद्वदेव महाप्रभो अनुसृत्य रुचिर्भेदं ऋजुना कुटिलेन वा पथाचरन्तो मनुजा मिलन्ति त्वयि चान्ततः वाक्यानि विविधान्येवम् अं मुक्त्वा कश्चिद् विशिष्टभावं तु सृष्टवान् विलम्बितम् निजपक्षालसारित्वम् अतिभक्तिमतिभ्रमम् अन्यधर्मविरोधं च विहातुं स्वामिनार्थितम् अतुल्यभाषणं स्वामी वर्येण विहितं यदा अनुकूलप्रतिस्पन्ध उच्चैः श्रोत्रेभ्य उद्गतः धर्मसौहार्दविषये न कोऽप्यन्यप्रभाषकः एवं सफलया वास्य बाण्या प्रोक्तवान् मेलने खलु वक्तार उचिरे सर्वे स्वधर्मं प्रति विवेकानन्दपादैस्तु दैवतं प्रतिभाषितम् ईश्वर सर्वधर्माणाम् एक एवास्ति निश्चितं स परमं लक्ष्यं भवति सोऽवदत् एतद्विशिष्टसत्यं स गुरुदेवागृहीतवान् न कृतं स्वामिना तस्मात् अन्यधर्मस्य निन्दनं यदा समाप्तम् अभवत् स्वामीवर्यस्य भाषणं सामीप्यं तस्य संलोब्धं पुरतश्चरिता जनाः धर्मसम्मेलने पश्चात् बहुशस्तेन भासितम् आसीत्त्वा शान्तमानसाः शुश्रोमुस्तस्य भाषणम् सन्न्यासी भारतस्याभू सहसा विश्वविश्रुतः वृत्तपत्रेष्वलेकेषु विश्व वार्ता तम् प्रति मुद्रिता विविधेष्वपि मार्गेषु चिकागोनगरान्तरे स्वामिनः पूर्णचित्रम् तु वीथिभित्ते सुवीक्षितम् विवेकानन्दसन्न्यासी नीचैरित्येवमङ्कितं सादरं तत् प्रतिष्ठेयो पथिका न शीर्षकाः भारते चाप्रवृत्तान्तपत्रिकासु प्रकाशिता धर्ममेलनसम्बन्धा नानावार्ता सविस्तरं महत्त्वं हिन्दुधर्मस्य स्वाविनायत् प्रदर्शितम् निरूप्य भारतीयानाम् अभिमानं विजृम्भितं नगरे जातो नरेन्द्रस्य महाजयः श्रुत्वा सर्वेऽपि वराह नगराश्रवे। कस्मिंश्चित् दिवसे दूनं नरेण विश्वं प्रकम्पयेत् इत्युक्तं गुरुनायतो गतार्थम् अधुना भवत् स्वामिनो नाम भुवने यदा सर्वत्र विश्रुतं तस्य लौकिककार्याणि निरूढानि धनेश्वरैः व्याकुलं किन्तु तच्चित्रं स्मरत् स्मरति स्म यदा भारते बहवः सन्ति दारिद्र्यपरिपीडिताः यदा भूतस्वामिनो दुःखमेकस्यां निषेदुस्सहं पतित्वा च परिभ्रम्य भूतले विललापसः अन्यनिर्धनतायां मे मातृभूमिर्निमज्जते ततिष्ठाया च विख्यात्या ममकिम्वा किं वा प्रयोजनम् अत्र लोकास्वसौख्याय जयन्ति च धनं भृशम् उद्धरणं भारतस्य जनानां कः करिष्यति को वामुष्टिमितं भक्ष्यं तेभ्यो हन्त प्रदास्यति कथं कुर्यामहं तेषां सहाय्यं मात उच्यताम् अमेरिका कथं प्राप साम्पत्तिकसमुन्नतिम् इति ज्ञातुं प्रयोत्नोऽपि विहितस्वामिना तथा भारते स्वस्य शिष्यान् सा पश्चाद्यापितवानपि निजाभिप्रायमेतस्मिन् विषये गौरवान् भिते अस्मिन्नवसरे तत्र कयाचिदपि संस्थया स्वामीनिमन्त्रितकर्तुम् नानास्थानेषु भाषणं स्वामीनाङ्गीकृतं तत्तु यतस्तेन शशक्नुयात् मिथ्याबोधम् अपाकर्तुं हिन्दुधर्मसमाश्रितं परमारम्भं सपद्येव भ्रमणं चक्रवातवत् अमेरिकाप्रदेशस्य नानास्थानेषु तेन च ल्पवर्यस्य गृहं तस्य भुक्षावासस्थलं पुनः वातावर्तसमो हिन्दो इत्याख्यातो जनेन स स्पष्टवक्ता भवत् स्वामी तदा येन स उक्तवान् अमेरिकासमाजस्य वैकल्प्यानि परिस्फुटम् अज्ञताजातविषयान् भारतं प्रति केचन लघुचित्ताः पृष्टवन्तः स्वामिनम् तु कदाचर विद्युत्पातसमम् तस्य प्रत्युत्तरम् अभूत्तदा प्रश्नकर्तुम् मुखम् तस्मान् नष्टप्रभम् अजायत लब्धस्थानो भव क्रैस्तावानां मनस्सु च श्रोदस्वामिनो जाता बहुक्रिस्तपुरोहिताः तथापि क्रिस्तधर्मस्य कपटाराधकान् प्रति स्वामिवर्येण निशङ्कं कृतं रोक्षविमर्शनं क्रिस्तधर्मप्रचारार्थम् अन्यधर्मापभाषणम् पाश्चात्यै यत्कृतं तत्तो स्वामिवर्यो विरुद्धवान् स्वामिनः स्पष्टवादित्वं क्रिस्तधर्मप्रचारकैः प्रतिकूलितं बहुभिस्तेषां सहचरैस्तथा असूयालोचना केचि भारतीया विधं। निन्दने स्वामिवर्यस्य पाश्चात्यानन्वकरु कुर्वत अमेरिकाप्रदेशस्य काचित् वृत्तान्तपत्रिका यथार्थसंवादांश्च तमुद्दिश्या प्रकाशयत् भारते स्वामिनः शिष्यां श्रेदश्चापि केचन विज्ञाय सर्वमेतत्तु भयार्ता दुःखितास्तथा कुचेष्टितप्रियजनाम् हेन चित्ताश्च केवलम् अकुर्वन्निरमित्येवम् स्वामी शिष्या न बोधयत् अमेरिकाप्रदेशस्य सामान्यजनता तथा प्राज्ञा पुरोहिताश्चापि तन्मित्राणीति निस्वता ब्रह्मचर्यं च सन्न्यासी शपथद्वयं न तेन ना तदतिक्रान्तम् इति ज्ञापितवान् स च प्रातिकुल्येन केनापि स्वावि दैव प्रकम्पितः तदीयभाषणं श्रोतुम् आगताः प्रमुखाजनाः जनाः अध्यात्मव्यक्तिवैभवम् उन्नताशेत्यादि सर्वम् आकर्षयज्जनान् स्वीकृतं तस्य शिष्यत्वं जनैकैश्च तत्र च वेदान्तस्य प्रचाराय स्वामिना